श्रीरङ्गनाथपादुकासहस्रम् श्रीमत्प्रणतार्तिहरवरदपरब्रह्मणे नमः श्रीमदे निगमान्दमहादेशिकाय नमः श्रीरङ्गनाथदिव्यमणिपादुकाभ्यां नमः श्रीमदे रामानुजाय नमः श्रीमान् वेङ्गडनाधार्यकवितार्किककेसरी वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि प्रस्तावपद्धति सन्तश्रीरङ्गपृथ्वीशचरणत्राणशेखराः जयन्ति भुवनत्राणपदपङ्कजरेणवः भरताय परं नमोऽस्तु तस्मै प्रथमोदाहरणाय भक्तिभाजां यदुपत्न्यमशेषतः पृथिव्यां प्रथितो राघवपादुकाप्रभावः वर्णस्थोमैर्वकुलसुमनो वासनामुद्वहन्ती माम्नायानां प्रकृतिमपराम् संहितां दृष्टवन्तं पादे नित्यप्रणिहिदधियं पादुके रङ्गभर्तुस्त्वन्नामानं मुनिमिक भजे त्वमहं स्तोदुकामः दिव्यस्थानात्त्वमिव जगदीं पादुके गाहमाना पादन्यासं प्रथममनया भारदीयत्र चक्रे योगक्षेमं सकलजगदां त्वय्यधीनं स जानन्वाजं दिव्यां दिशदु वसुधा श्रोत्रजन्मामुनिर्मे नीचेऽपि हन्त मम मूर्धनिर्विशेषम् तुङ्गेऽपि यन्निवशदे निगमोत्तमाङ्गे प्राचेत्तसप्रभृतिभिः प्रथमोपगीदं स्तोष्यामि रङ्गपदिपादुकयोर्युगं तत् धत्ते मुकुन्दमणिपादुकयोर्निवेशाद्वल्मीकसम्भवगिरां समदां ममोऽक्रीः गङ्गाप्रवाहपतितस्य कियानिवस्याद्रध्योदकस्य यमुना सलिलाद्विशेषः विज्ञापयामि किमपि प्रतिपन्नभीदिगेव रङ्गपदिविभ्रमपदुके त्वां क्षमा सदसदी विगदाभ्यसूयाः सन्दः स्पृशन्तु सदयैहृदयैस्तुतिं ते अश्रद्धधानमपि स्तोत्रे नियोजयसि मां मणिपादुके त्वं देवः प्रमाणमिह तस्यैव देविपदपङ्कजयोर्यधात्वम् यदाधारं विश्वं गतिरपि च यस्तस्य परमा तमप्येका धत्से दिशि वरगतिं तस्य रुचिराम् कथं सा कं दुर्बोधमहिमा कवीनां क्षुद्राणां त्वमसि श्रुतप्रज्ञासम्बन्महिदमहिमानकधिकदिस्तु वन्दि त्वां सन्तः श्रुतिकुहरकण्डूहरगिरः अहं त्वल्पस्तद्वदिह बहु च जल्पामि तद यदेष स्तौमि त्वां त्रियुगचरणत्रायिणि तदो महिं न का हानिस्तव मम दुःसम्पन्निरवधिः मित प्रेक्षालाभ क्षणपरिणमत्चशा मधुक्तिस्त महित संरभ विषय न क्येय हा हरिचातले मुहुर्वात्याधू मुखपवन विस्फूर्जित निःसन्देहनिजापकर्षविषयोत्कर्षोऽपि हर्षोदयप्रत्यूहक्रमभक्रिवैभवभवद्वैयाद्यवाचालितः रङ्गाधीशपदत्रवर्णनकृदा रम्भैर्निगुम्भैर्गिराम् नर्मा स्वादिषु व्यङ्कटेश्वरकविर्नासीरमासीदधिकक्ष्मापदिरत्नपादु भवतीं तुष्टुषदो मे जृम्भन्तां भवदीयषिञ्चिदसुधा सन्दोहसन्देहदाः श्लाखाकूर्णिदचन्द्रशेखरजडा जङ्खालगङ्गापयस्त्रासदेशविशृङ्खलप्रसरणोत्सिक्ता स्वयं सूक्तयः हिमवन्नलसेतुमध्यभाजां भर्ताभ्यर्थितुकावतं सः अतपो धनधर्मधः कवीनामखिलेष्वस्मि मनोरथेष्वबाह्यः अनिदम्भ्रतमस्य शब्दराशेरपदं रङ्गधुरीणपादुगे त्वां गदभीदिरभिष्टुवन्विमोहात् परिहासेन विनोदयामि नाथम् वृत्तिभिर्बहुविधाभिराश्रिता वेङ्कटेश्वरकवे नर्तकीव भवतीं निषेव अपारकरुणाम्बुधेस्तव खलु प्रसादादहं विधातुमपि शक्नुयां शतसहस्रिकां संहितां तथापि हरिपादुके तव गुणौ खले शस्तिदेरुदाहृदियम् भवेदिति मितापि युक्तास्तुतिः अनुकृतनिजनादां सूक्तिमापादयन्ती मनसि वचसि च त्वं सावधानामस्याः निशमयदि यथासौ निद्रया दूरमुक्तः परिषदि सह लक्ष्म्या पादुके त्वयि विहितास्तुतिरेषा दिरेषा, भवति रङ्गनाथपदे तदुपरि कृता स पर्या न शिरसि इति कवितार्किकसिंहस्य सर्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य श्रीमद्वेदान्ताचार्यस्य कृतिषु श्रीरङ्गनाथ पादुकासहस्रे प्रस्तावपद्धतिः प्रथमा